जनमे जयौ उवाच बालाभिरूपस्य तव प्रमेय वरं प्रयच्छामि यथानुरूपम् वृणीष्व यत्तेऽभिमतम् हृदि स्थितम् तत्ते प्रदास्याम्यपि चेददेयम् ऋत्विजौचुः अयमायातितूर्णम् स तक्षकस्ते वशं नृपः श्रूयतेऽ्य महान्नादो नदतो भैरवं रवं नूनं मुक्तो वज्रभृता सनागो भ्रष्टो नाकान्मन्त्रविस्रस्तकायः घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निश्वसन्पन्नगेन्द्रः सौतिरुवाच पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसी इदमन्तरमित्येव तदास्ति कोऽभ्यचोदयत् आस्ति उवाच वरं ददासि चेन्मह्यं वृणोमि जनमे जया सत्रंते ते विरमत्वे तन्नपते युरिहोरगाः एवमुक्तस्तदा तेन ब्रह्मन् परिक्षितस्तु सः वाक्यमब्रवीत् सुवर्णम् रजतम् गाश्च यच्चान्यन्मन्यसे विभो तत्ते दद्यां वरम् विप्रननिवर्तेत्क्रतुर् मम उवाच सुवर्णम् रजतम् गाश्च न सत्रं ते विरमत्वे तत्स्वस्ति मातृकुलस्य नः सौतिरुवाच आस्तीकेनैव मुक्तस्तु राजा पारीक्षितस्तदा पुनः पुनरुवाचेदमास्तीकं वदतां वरः अन्यं वरय भद्रं ते वरं द्विजवरोत्तम अयाचतनचाप्यन्यं वरं ततो भृगुनन्दन ततो वेदविदस्तातसदस्याः सर्वयेवतं राजानमूचुःसहिता लभतां ब्राह्मणो वरम् इति श्रीमन्महाभारते आदिपर्वणि आस्तिकपर्वणि आस्तिकवरप्रदानं नाम षट्पञ्चाशत्तमोऽध्यायः